एम्बत्य एशकम् कुशेलो वाक्यानाम् कुचेल नामा भवत सतीर्थयाम् गत सशान्ति पनि मन्दिरे द्विज द्वदेगरागेण ददाति निःस्पृहो दिनानि निङ्गे व्रचमे गृहाष्टमे समानशीलापि तदीय वल्लप तदैव नोचित्त जयम् समेयुषे रमापतिः किम् न सका निषेव्यते इतीतोऽयम् प्रियया क्षुदार्तया जुगोप्समानोऽपि धने मदा वहे तदा त्वदा लोकनकौ प्रविश्य वैकुण्ठविवापनिर्वृतिम् तवादिसम्भावनया तु किम् पुनः प्रपूजितम् तम् प्रियया च वीजितम् करे गृहीत्वा अपर्तु वर्षम् दतमर्षे बलादत प्रगृह्यमुष्टौ सकृदा कृतं त्वया कृतम् कृतम् नन्वियतेति सम्भ्रमात् रमा रुरोदते भक्तेषु भक्तेन समानितस्त्वया पुरीम् वसन् येकनिशाम् महासुखम् बदा परेद्युर्द्रविणम् विनाययौ विचित्ररूपस्तव कल्वनुग्रहाम् यदि ह्ययाचिष्यमतास्य दश्युतो वदामि वार्याम् गृहम् प्रविष्टः स ददर्शवल्लभाम् सखीपरीताम् मणिहेम भूषिताम् बुबोत चत्वत्करुणा महाद्भुताम् सरत्नचालासु वसन्नपि स्वयम् समुन्नमद्भक्तिपरो मृदम् ययौ त्वमेव मा भूरितभक्तवाञ्चितो मरुत्पुराधीशहरस्वमे गतान् भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूटमते